शत तमोऽध्यायः वैशम्पाय सराजा उवाच स देवराजर्षि सत्कृतः धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः दमो दानम् क्षमा बुद्धिर्ह्रीद्धृतिस्तेज उत्तमम् नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे एवम् स गुणसम्पन्नो धर्मार्थ आसीत् भरत गोप्ता सर्व च कम्बुग्रीवः पृथुव्यम् सो विक्रमः अन्वितः परिपूर्णार्थैः सर्वैर्नृपति लक्षणैः तस्य कीर्तिमतो वृत्तमवेक्ष्य सततम् नराः धर्म एव परः कामादर्थाच्चेति व्यवस्थिता पार्थिवो भवत् वर्तमानम् हि धर्मेषु सर्वधर्मभृताम् वरम् तम् मही पामही पालम् राजराज्येभ्य सेचयन् यज्ञदान क्रियाशीलाः समपद्यन्त भूमिपाः शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा नियमात् सर्ववर्णानाम् धर्मोत्तरमवर्तत ब्रह्म पर्यचरत् क्षत्रम् विशः क्षत्रमनुव्रताः ब्रह्म क्षत्रानुरक्ताश्च शूद्राः पर्यचरन् विशः रम्ये कुरूणाम् पुटभेदने वसन्सागर पर्यन्तामन्वशा सद्वसुन्धराम् सदेव राजसदृशो दान धर्म तपो योगात् श्रिया परमया युतः अराग द्वेष संयुक्तः सोमवत् प्रिय दर्शनः तेजसा सूर्य कल्पो भूद् समोजवे अन्तक प्रतिमः क्षमया पृथिवी समः वधः पशुवराहाणाम् तथैव मृगपक्षिणाम् शान्तनो न चाधर्मेण केषाञ्चित् प्राणिनामभवत्वथ असुखा नाम नाथानाम् तिर्यज्ञोनिषु वर्तताम् स एव राजा सर्वेषाम् भूता भवत्पिता तस्मिन् कुरुपति श्रेष्ठे राजराजेश्वरे सति श्रिता वागभवत् मनः स षोडशाष्टौ चतस्रोष्टौ तथा परा रतिमप्राप्नुवन् स्त्रीषु बभूव तथा रूपस्तथा चारस्तथा वृत्तस्तथा श्रुतः गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च महाबलो महासत्त्वो महावीर्यो महारथः स कदाचिन्मृगम् विद्ध्वा गङ्गामनुसरन्नदीम् भागीरथीमल्प जलाम्